दृष्ट्वैव सच धीमां धीमांश्चक्रमे चारुहासिनीं दिव्यां तां वासवीं कन्यां रम्भोरुं मुनिपुङ्गवः सङ्गमं मम कल्याणि कुरुष्वेत्यभ्यभाषत सा ब्रवीत्पश्य भगवन्पारावारे स्थितान्दृषीन् आवयोर्दृष्टयोरेभिः कथं तु स्यात्समागमः एवं तयोक्तो भगवान्निहारमसृजत्प्रभुः येन देशः स सर्वस्तु तमोभूतैवाभवत् दृष्ट्वा सृष्टं तु निहारं ततस्तम् परमर्षिणा विस्मिता सा कन्या व्रीडिता च तपस्विनी सत्यवत्युवाच विद्धि मां भगवन्कन्यां सदा पितृवशानुगां त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ कन्या त्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तमा गृहं गन्तुम् ऋषे चाहम् धीमम् न स्थातुमुत्सहे एतत् सञ्चिन्त्य भगवन् विधत्स्व यदनन्तरम् एवमुक्तवतीं तान् तु प्रीतिमान् ऋषिसत्तमः उवाच मत्प्रियम् कृत्वा कन्यैव भविष्यसि वृणीष्व च वरम् त्वमिच्छसि भामिनि वृथाहि न प्रसादो मे भूतपूर्वः शुचिस्मिते एवमुक्तावरं वव्रे गात्रसौगन्धमुत्तमं स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं भुवि